नारदपुराणं पूर्वार्धम् अध्यायं टन् नारद उवाच विष्णुपादाग्रसम्भूता या गङ्गेत्यभिधीयते तदुत्पत्तिं पदभ्रादरनुग्राह्योऽस्मि ते यदि सनक उवाच शृणु नारदवक्ष्यामि गङ्गोत्पत्तिं तवानखपददां शृण्वदां चैव पुण्यदां पापनाशिनीम् आसीदिन्द्रादिदेवानां देवानां कश्यपो मुनिः दक्षात्मजे तस्य भार्ये दिदिरे दिदिरेव च अदिर्देवमादास्ति दैत्यानां जननी दिदिः ते तयोरात्मजा विप्रपरस्परजयैषिणः सदा स पूर्वदेवास्तु यदो दैत्या प्रकीर्तिताः आदिदायिंत्यो दिदे पुत्रो हिरण्यकशिपुर्बली प्रह्लादस्तस्य पुत्रो भूत् सुमहान् विरोचनस्तस्य सुतो बभूवद्विजभक्त्रिमान् तस्य पुत्रोदितेजस्वी बलिरासीत्प्रदा भवान् स एव वाहिनीपालो दैत्यानामभवन्मुनेः बलेन बले बुभुजे मेदिनीमिमां विजित्य वत्सुधां सर्वां स्वर्गं जेतुं मनो दधे यस्या गजाश्च यस्यायुधकोडिलक्षास्तावन्दये वाश्वरथा मुनीन्द्र गजे गजे पञ्चषदी पदाधे किं वर्ण्यते तस्य च मोर्वरिष्ठा अमात्य कोड्यग्रसरवमात्यौ कुम्भाण्डनामाप्यथकोपकर्णः पित्रा समम् शौर्यपराक्रभ्याण बल पुत्रजो भूद बलिरांजेदु मन प्रवृत्त सैन्य युक्त महदा प्रतस्तेचादनाबुराशेस्तरुस्म अवाप्य भृत्रारिपुरं सुरारीरुरोकदैत्यैर्मृगराजगाढैः सुरश्च युद्धाय पुरा तथैव विनिर्ययोर्वज्रकराधयश्च तदप्रववृदे युद्धं होरं गीर्वाणदैत्ययो कल्पान्तमेघानिर्धोषम् दिण्डिमन्ध्वनि सम्भ्रमम् मुमुचुश्चरजालानि दैत्या सुमनः साम्बले देवाश्च दैत्यसेनासु सङ्ग्रामेऽत्यन्तदारुणे जहि दारय भिन्धिदे छिन्दिमारय ताडय इत्येवं सुमहान् कोषावददां सेनयोरभूत शरदुन्दुभिर्निध्वानैः सिंहनादैः सिंहनादैः सुरद्विषं भाङ्गारै स्यान्दनानां च बाणक्रङ्गारनिःस्वनैः अश्वानां हेषितैश्चैव गजानां ब्रह्थितैस्तथा टङ्गारैर्धनुषां चैव लोकशब्दात्मयो भवत् सुरासुरविनिर्मुक्तबाणनिष्पेषजानले अकालप्रलय मे निरीक्ष्य सकलं जगद बभौ चल सेनास्फुरच्छत्रौखधारिणी चलद्विद्युन्निभरात्रिश्चादिदा जलदैरिव तस्मिन् युद्धे महाधोरायर्गिरीन् क्षिप्तान् सुरारिभिः नराश्चैश्चूर्न यामासुर्देवास्ते लघुविक्रमाः केजेत्सताडयामासुर्नागैर्नागान्धान्रधैः अश्वैरश्वांश्च केचित्तु गदाद् दण्डैरधार्दयन् परिधैस्ताडिधा के, के, के जित्पे दुश्योनिदकर्दमे समुद्रां तासवके जिद्विमानानि समाश्रिताः ये दैत्यानि कदा देव वैप्रसह्य सङ्गरे तदा ते देवभावमापन्ना दैदेयान् समुपाद्रवन् अध दैत्यघना क्रुद्ध्वा तड्यमाना सुर्वैर्भृशं ैर्बहुविधैर्देवान् निजधुनरि दारुणाः दृशद्भिर्भिदि पालैश्च गङ्गैः परशुतोमरैः परिद्धैश्चुरिकाभिश्च कुन्धैश्चक्रैश्च शङ्गुभिः मुसलैरङ्गुषेष्वैव लाङ्गलैः पट्टिषैस्तथा चक्र्योपधै शदक्रिभिपाशैश्च तलमुष्टिभिः शूलैर्नालिकनाराचैः क्षवणीयै समुद्ररैः समुद्रधैः रथाश्व नागपदकैर्सङ्गुलो ववृधेरणः देवाश्च विविधास्त्राणि दैते येभ्यः समाक्षिपन् एवमष्टसहस्राणि युद्धमासीत् सुदारुणम् अध दैत्यबले वृद्धे पराभूतादिव उपसह सुरलोकम् परित्यत्य सर्वे दीदा प्रदुद्रुवुः नररूपपरिच्छन्ना विचेरुरवनीतले वैरोचनिस्त्रिभुवनं नारायणपरायणः बुभुजे व्याहक्तैश्चर्यप्रवृद्धश्रीर्महाबलः इत्याच्चाश्वमेखैः स विष्णुप्रीणनतत्परः इन्द्रत्वं चागरोत्स्वर्गे दिक्पालत्वं तथैव च देवानां प्रेणनार्थाय यै क्रियन्ते द्विजैर्मथाः तेषु यत्नेषु सर्वेषु हविर्भुङ्क्ते स दैत्यराड् अदिधिस्वात्मजान्वीक्ष्य देवमादादिदुःखिता वृधात्र निवसामेदि मत्वा गाद्धिवद्भिरं शक्रस्यैश्वर्यमिच्छन्ति दैत्यानाम् च पराजयम् हरिध्यानपरा भूत्वा तपस्ते पेदि दुष्करम् किञ्चित्कालम् समासीना तिष्ठन्ती च ततः परम् mm. पदेनैकेन सुचिरम् ततः पादाग्रमात्रतः कञ्चित्कालम् हलाहार तदशीर्ण दलाशना तदोज्जलाशमा वायुभोजनाहारवर्जिता सच्चिदानन्दसन्दोहम् ध्यायत्यात्मानमात्मना दिव्याप्तानां सहस्रं सा तपोस्तप्यदनारद दुरन्तं तत्तपसृत्वा दयितेया मायिनो दिधितिं देवतारुपमस्ताय सम्प्रोजो बलिनोदिताः किमर्थं तप्यते माधशरीरपरिचोषणं यदि जानन्ति दैतेया महद्दुःखं ततो भवेद् त्यजेदं दुःखबहलं कायशोषणकारणं प्रयाससाध्यं सुकृतं न प्रसन्ति शरीरं यन्तदो रक्ष्यं धर्मसाधनतत्परैः ये शरीरमुपेक्षन्ते ते स्युरात्मविकादिनः सुखं त्वं तिष्ठसुभगे पुत्रानस्मान्नखेदय मात्राहीना जना मादर् मृदप्रायाणसंशयः कावो वा पशवो वापि यत्र गावो महीरुहाः न लभन्ते सुखं किञ्चिन्मात्राहीना मृदोपमाः दरिद्रो वापि रोगी वा देशान्तरगतोऽपि वा मा दुर्दर्शनमात्रेण लभते परमा मुदम् वापि धनादौ प्रियासुजा कदाचिद्विमुखो यादिजनो मादरि कोपि न यस्य माता गृहे नास्ति यत्र धर्मपरायण सा द्वि च स्त्रीपतिप्राणा गन्तव्यं धर्मश्च नारायणभक्तिहीनां धनं च सद्भोगविवर्जितम् हि गृहं च मार्यातनयोर्विहीनं धा माद्र तथा मातृविहीनमर्त्यह तस्माद्देविपरित्रा हि दुःखार्तानात्मजांस्तव युक्त्युक्ताप्यदिर्दैप्याैर्न चचाल समाधितः यवमुक्त्वा सुर सर्वे हरिध्यानपरायणां निरीक्ष्य क्रोधसंयुक्ता हन्तुं चक्रु मनोरथम् कल्पान्तमेक निर्कोशा क्रोधसंरक्तलोचनाः दंष्ट्रग्रैरसृजन्वह्निं सोदखकाननं क्षणाद शतयोजनविस्तीर्णं नानाजीवसमकुलं तेनैव दग्धा दैतेया ये प्रदर्शयितुं गताः सैव वशिष्टा जननि सुराणामाब्दाश्चता दच्युतसक्तचिता संरक्षिता विष्णु सुदर्शनेन दैत्यान्धकेन स्वजनानुकम्पिना यदि श्री बृहन्नादीयपुराणे पूर्वभागे प्रथम पदे व्यंगोत्पत बलिदेवपराजय वर्णन नाम दशमोध्याय ओं